गुरुब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परम् ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदिविश्वेषम् विधाय गुरुवन्दनम् बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायचिन्तनवर्गे सर्वेषाम् सुस्वागतम् इदानीमपि वयम् गुणस्य व्याप्याव्याप्यम् च वृत्तित्वम् इत्यस्मिन् पुटे स्मः तत्र करपत्रे स्मः किमर्थम् एतत् करपत्रं निर्मितम् इति चेत् तत्र मतभेदः वर्तते तत्र इत्युक्ते रूपम् इति गुणः रूपमिति गुणः द्रव्ये वर्तते इति वयं जानीमः यदा एकस्या एकमेव रूपं द्रव्ये वर्तते चेत् तत्र तदेव रूपम् इदानीं रक्तवर्णघटः अस्ति इति चिंतयाम चेत रक्तवर्ण तो घटम व्याप्य ठती ठती व्याप्युक आवृत्यटम व्याप्य ठती रक्तूप किंतु एक अकम इदानंम घट से उपरी भागे नीलवर्णमस्धोभागे रक्तवर्णमस्ती चिंत वर्णे स्टे त इदानीं नीलरूपमपि घटं व्याप्य तिष्ठति इति न वक्तुं शक्यते केवलम् अग्रभागे एव तदस्ति अपि रक्तवर्णमपि घटं व्याप्य तिष्ठति इति न वक्तुं शक्यते केवलम् अधोभागे एव अस्ति तर्हि इदानीं रूपस् रूपम् इति गुणस्य वृत्तित्वं कथम् इति चिन्तनं तत्र मतभेदः वर्तते प्राचीननैयायिकाः किं कुर्वन्ति किं वदन्ति इति चेत् यस्मिन् द्रव्ये एकस्यापि अधिकं रूपं वर्तते तत्र ते रूपद्वयं वा यानि रूपाणि सन्ति तत्सर्वं त्यक्त्वा तत्र चित्ररूपम् इति नूतनरूपम् उत्पद्यते इति स्वीकृत्य पुनः चित्ररूपं सर्वत्र वर्तते घटस्य घटे सर्वत्र वर्तते तर्हि रूपं ्याप्यवृत्तिगुणः इति तेषां मतं इतिते प्राचीनानां प्राचीननव्यायिकानां मतमस्ति रूपं व्याप्यवृत्ति व्याप्यवृत्तिः गुणः व्याप्यवृत्तिगुणः इति तर्हि एकस्मिन् द्रव्ये एकस्यापि अधिकं रूपं वर्तते चेत् तत्र चित्ररूपम् उत्पादितम् इति स्वीकृत्य चित्ररूपम् इदानीं सर्वत्र वर्तते इति प्राचीनाः कथ्यन्ते किन्तु नव्यनैयायिकाः किं वदन्ति इति चेत् तादृशं मास्तु रूपम् अव्याप्यवृत्तिः वृत्तिगुणः इति स्वीकुर्मः अव्याप्यवृत्ति इत्युक्ते किं तत् उदाहरणं ते तत दास्यन्ति वृक्षे कपिः वर्तते इति चिन्तयतु एकः कपिः वर्तते कुत्र वर्तते वृक्षे सर्वत्र वर्तते वृक्षस्तु बृहत् अस्ति तर्हि अग्रभागे एव वृक्षस्य अग्रभागे विद्यमान एकाम् एकस्यां शाखायां कपिः वर्तते तर्हि अग्रभागे एव कपिः वर्तते अपि च कपिवृक्षयोः मध्ये संयोगः अस्ति किल संयोगु चुशतिगुेश अतिगु सह गुण कुर्त चे अग्रभागे वर्तते मूलभागे कपयोग नस् कस्ग हैु अस्त मूलभागे ती संगु यप्यवृत्ति अव्याप्यवृत्तिः इत्यस्य लक्षणं ते कृतं कथं वदन्ति इति चे स्वाभाव अधिकरणे स्वस्य विद्यमानत्वं स्व अभाव अधिकरणे इत्युक्ते स्वस्य अभावः यस्मिन् अधिकरणे अस्ति तस्मिन् एव अधिकरणे तस्य विद्यमानत्वं भावत्वम् इति यत्र वदामः तदेव अव्याप्यवृत्तिः इति नव्याय नव्यनैयायिकानां मतम् एतद् अपि प्राचीनानां मतमपि अव्याप्यवृत्तिः इति प्राचीनाः अपि स्वीकुर्वन्ति किन्तु संयोगः अव्याप्यवृत्तिः इति ते स्वीकुर्वन्ति किन्तु रूपम् अव्याप्यवृत्तिः गुणः नास्ति इति तेषां कथं तत्र मतभेदः वर्तते अस्तु तर्हि इदानीं नव्यायाः किं वदन्ति नव्यनैयायिकाः किं वदन्ति इति चेत् रूपम् अव्याप्यवृत्तिः इत्युक्ते तत्र इदानीं उदाहरणं मया उक्तं किल घटः इति यस्मिन् घटे द्वे वर्णे स्तः रक्तवर्णम् अधोभागे वर्तते उपरि भागे नास्ति तर्हि रक्तवर्णम् इदानीं कुत्र वर्तते इति चेत् अव्याप्यवृत्ति इति वदति प्य रूपं घटं व्याप्य तिष्ठति इति ते वदन्ति इदानीं रक्तरूपं घटम् अव्याप्य तिष्ठति इति ते वदन्ति एवमेव नीलरूपमपि अव्याप्य तिष्ठति अपि च स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इदानीं रक्तरूपस्य अधिकरणं किं घटः रक्तूप कुर्तते घटे वर्त रूपे आधेयता अस्ति, घटे अस्टे अे अकता अस्कणे तस् विद अस्कणे इदानम घट के उपरी भागे रक्तवर्ण नास् रक्तवर्ण से अव उपरीगे अस्तु उपरी घटता किमर्थमित्युक्ते घटे एव अधिकरणता घटस्य उपरिभागे अधिकरणता इति न वक्तव्यं तत्र अवयवे अधिकरणता यदा कदापि न भवति अवयविनी एव अधिकरणता भवति सम्पूर्णघटम् अधिकरणमस्ति तर्हि तस्मिन् अधिकरणता विद्यते किन्तु सा अधिकरणता इदानीं केन अगच्छिन्ना इति चेत् तत्र भागः वक्तव्यः भवति उदाहरणा कपसहयोग कुर्त है अग्रभागे वर्त न्यायशल्याक्यम वक्त चे कथ वक्त चेत कपयोग आधेयता कपयोग वृक्षे वर्त तेन वृक्षे विदिकरणता निवु अधिकरणता वृक्षे सर्वे वर्तते वर्तते इति कृत्वा किन्तु कपिसंयोगः सर्वे सर्वत्र नास्ति इति कृत्वा तत्र अवच्छेदकत्वं वक्तव्यं भवति अवच्छेदकं किम् इति चेत् अग्रं तर्हि वाक्यं कथं भवति इति चेत् कपिसंयोगनिष्ठ आधेयता निरूपिता अग्रावच्छिन्नवृक्षनिष्ठ अधिकरणता पुनः वदामि कपिनिष्ठ आधेयता निरूपित अग्र अवच्छिन्न वृक्षनिष्ठ अधिकरणता आधेयता आधेयतया अधिकरणता निरूपिता भवति किन्तु अधिकरणता सर्वत्र वर्तते सर्वत्र विद्यमानस्य अधिकरणता तत्र कपिनिष्ठ आधेय आधेयतया न निरूपिता भवति तर्हि कीदृश अधिकरणता निरूपिता इति चेत् अग्रावच्छिन्न अधिकरणता एव कपिनिष्ठसंयोगेन निरूपिता भवति इति चिन्तनमस्ति अत्र अपि अपि च इदानीं वयं कुत्र इति चेत् व्याप्यत्वे सति व्यापकत्वम् इति तत्र व्याप्यत्वे सति व्यापकत्वम् इत्यनेन किं बोधितम् इति चेत् अन्यून अनतिरिक्तवृत्तित्वम् इदानीं वयं वृत्तित्वविषये व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इत्यस्मि इत्यस्मिन् विषये ज्ञातं किन्तु इदानीम् अन्यूनवित् वृत्तित्वम् अनतिरिक्तवृत्तित्वम् इत्यस्मिन् विषये चिन्तनं प्रवर्तमानः अस्ति तत्र उदाहरणम् आसीत् गन्धः गन्धवती प्रथिवी इति लक्षणम् अस्माभिः अधीतं तर्हि गन्धः इति गुणः पृथिवीं व्याप्य तिष्ठति व्याप्य तिष्ठति इत्युक्ते अत्र यत्र यत्र पृथिवी अस्ति तत्र तत्र गन्धः वर्तते एव किन्तु यत्र पृथिवी नास्ति पृथिवी नास्ति तत्रापि गन्धः वर्तते वा इति पृष्टे सति नास्ति अपि च विपरीतत्वेनापि इत्युक्ते यत्र यत्र पृथिवी अस्ति तत्र तत्र गन्धः वर्तते एव अपि च गन्धः यत्र नास्ति तत्र पृथिवी अस्ति वा इति चेत् नास्ति इत्युक्ते समानवृत्तित्वम् अस्ति पृथिवीगन्धयोः मध्ये तादृशसमानवृत्तित्वम् एव व्याप्यत्वे सति व्यापकत्वम् इति इति पदेन इति वाक्येन कथ्यते तस्मिन् विषये एव इदानीं चिन्तनम् अस्ति अस्तु मेहुल् महोदय भवान् पठतु व्याप्यत्वे सति व्यापकत्वम् इत्यनेन महोदय हा महोदय एक संशयः अस्ति बहुनी अवयवानि तु भवितुम् अर्हति एक द्रव्ये तर्हि यत्र संयोगः अस्ति तत्र व्यापकत्वम् अस्ति इति चिन्तनं वा हा तत्रापि इतोपि अग्रे एव आयास्यति तस्मिन् विषये एव चिन्तनम् इदानीं भवता उक्तं किल वाक्यम् अवयवाः अवयविनी सन्ति इति भवता उक्तं किल महोदय तद् असमीचीनम् अस्ति वस्तुतः नैयायिकानां चिन्तनानुसारम् अवयवी एव सर्वदा अवयवे भवति इदानीं घटः कपाले अस्ति वा कपालः घटे अस्ति वा घटः hmm, कपाले अस्ति हा कपालः कारणं घटः कार्यं कार्यम् एव समवायसम्बन्धेन कारणे वर्तते किल आं महोदय कारणं समवायसम्बन्धेन कार्ये वर्तते इति वदामः कारणमेव कार्ये महोदय कारणमेव कार्ये वर्तते न न कारणं कार्ये नास्ति कार्यं कारणे वर्तते अवयव okay, इदानीं नैयायिक आं लोके तादृशव्यवहारः अस्माभिः क्रियते तत्र इदानीं शाखा शाखा इति अवयवः अस्ति वृक्षस्य अवयवः अस्ति शाखा कुत्र वर्तते इति चेत् वृक्षे वर्तते इति वदामि आं महोदय किन्तु नैयायिकानां चिन्तनानुसारं वदिष्यामश्चेत् यदा कदापि अवयवः अवयविनि न वर्तते अवयवी एव सर्वदा अवयवे वर्तते समवायतम् तर्हि प्रश्नः उदेति कथं वा इदानीम् अग्र एतदपि uh, अहं uh, वदामि इदानीमेव एकनिमिषम् तस्मिन् विषये अग्रे आयास्यति इति अहं चिन्तयामि हा तदपि अग्रे आयास्यति तर्हि तत्रैव चिन्तयामः नो चेत् आं महोदय अस्तु अस्तु अस्तु अग्रे पठतु महोदय मेल् आम् आं महोदय व्याप्यत्वे सति व्यापकत्वम् इत्यनेन अन्यून अनतिरिक्तवृत्तित्वम् अत्र अवधेयं यत् न्यायशास्त्रे व्याप्यत्वं व्यापकत्वं च इत्येनयोः अर्थद्वयं भवति व्याप्यत्वस्य एकः अर्थः न्यूनदेशवृत्तित्वं यथा घटत्वं पटत्वं दण्डत्वम् इत्यादिकं पृथिवीत्वापेक्षया व्याप्यं न्यूनदेशवृत्ति इति अस्माकं परिचितः अर्थः किन्तु व्याप्यत्वस्य कश्चन द्वितीयः अर्थः तद्भाववत् अवृत्तित्वम् अत्र वयम् अधुना एव दृष्टवन्तः व्याप्यत्वे सति व्यापकत्वम् इति व्याक्य वाक्यस्य अर्थः किम् इत्युक्ते अन्यून अनतिरिक्तवृत्तित्वम् अत्र पृथ्वी अपि च गन्धः तयोः मध्ये अन्यून अनतिरिक्तवृत्तित्वम् इति अस्ति किमर्थमित्युक्ते गन्धः यत्र नास्ति तत्र पृथिवीत्वं न भवति अपि च विपरीतरीत्या पृथिवीं यत्र नास्ति तत्र गन्धः अपि नास्ति अतः द्वयोः मध्ये व्याप्यत्वे सति व्यापकत्वम् इति एव भवति तस्य अन्य एक अपि सञ्ज्ञास्ति अन्यून अनतिरिक्तव्यक्तित्वम् इति अत्र न्यायशास्त्रे व्याप्यत्वम् अपि च व्यापकत्वम् इत्यनयोः शब्दयोः अर्थद्वयं भवति व्याप्यत्वस्य एकः अर्थः अस्ति न्यूनदेशवृत्तित्वम् <coughs> इत्युक्ते अत्र उदाहरणेन यदि दृक्ष्यामः चेत् पृथिवी इत्यस्मिन् अपि पृथिवी इत्यस्य अपेक्षया घटम् अपि च पटम् अपि च दण्डम् इत्यस्मिन् पदार्थे यत् घटत्वं पटत्वम् अपि च दण्डत्व दंदत्व दण्ड त्वम् इति अस्ति ते न्यून न्यूनमस्ति पृथिवीत्वम् अपेक्षया पृथिवी तु बहु बहु बृहत् अस्ति अतः घटत्वं पटत्वं दण्डत्वम् एते सर्वे धर्माः न्यूनदेशवृत्ति इति वयं आ, वक्तुं शक्नुमः इति अस्माकं परिचितः अर्थः अस्ति तत्तु एकः अर्थः परन्तु व्याप्यत्वस्य द्वितीयः अपि अर्थः अस्ति तद् अस्ति तद भ तदभाववत् तद् अभाववत् अवृत्तित्वम् इति तस्य अर्थः किम् इति अग्रे अग्रिम् अग्रिम अग्रिमपरिच्छेदे आयास्ति न अग्रिमपरिच्छेदे तथैव व्यापकत्वम् इति अस्ति तर्हि व्याप्यत्वे इतोपि किमपि न उक्तं किञ्चित् वदति वा तद् अवृत्तित्वम् इत्युक्ते यदि घटत्वम् अपि च पटत्वं नास्ति चेत् तस्य तत्र नूनदेशवृत्तिः अपि नास्ति अपि च किमपि नास्ति अतः अवृत्तित्वम् अस्ति यत् यत् पटत्वमपि च घटत्वं नास्ति चेत् तस्य अवृत्तित्वम् अस्ति इति अहं चिन्तयामि व्याप्यत्वस्य कश्चन द्वितीयः अर्थः तद् अभाववत् अवृत्तित्वं तत्र उदाहरणं स्वीकृत्य किञ्चित् प्रतिपादयतु व्याप्यत्वस्य द्वितीयः अर्थः अत्र एकः अर्थः तु वयं दृष्टवन्तः न्यूनः अस्ति पृथिवी अपेक्षया पृथित्वम् अपेक्षया अपि च व्याप्यत्व इति घटत्वम् अपि च पटत्वम् इति स्वीकुर्मः चेत् तस्य तत् अभावस्य तत् अभावे तस्य अभावे अवृत्तित्वम् इति भवति यदि घटं नास्ति चेत् पटं नास्ति चेत् वयं जानीमः तत्र घटत्वम् न भवति पटत्वमपि न भवति अतः तस् एतस्य अभावे व्याप्यत्व uh, uh, uh, इति घटत्वम् अपि च पटत्वं तस्य अवृत्तित्वं भवति इति अहं चिन्तयामि hmm. uh, तद तद तत्र तद् अभाववत् अवृत्तित्वम् इत्युक्ते तद् इति अभाववत् तत्र वतुप्रत्ययः अस्ति तर्हि तद् अभाववत् यस्मिन् अधिकरणे तद् नास्ति ह्म् ह्म् ह्म् <coughs> तस्य अवृत्तित्वम् इति अर्थः अव्या व्याप्यवृत्तस्य अस्तु अग्रे पठतु महोदय तथैव व्यापकत्वम् हा तथैव व्यापकत्वम् इत्यस्यापि अर्थद्वयं व्यापकत्वस्य एकः अर्थः अधिकदेशवृत्तित्वम् इति अस्माकं परिचितः अर्थः यथा द्रव्यत्वं पृथिवीत्वस्य अव्यापकम् यतो हि पृथिवीत्व अपेक्षया अधिकदेशे अस्ति किन्तु व्यापकत्वस्य द्वितीयः अर्थः तत् समानाधिकरण अत्यन्ताभाव अप्रतियोगित्वम् इति <स्थितिया> अत्र व्यापक व्याप व्याप्यत्व इति वयम् उदाहरणेन घटत्वं पठत्वम् इति दृष्टवन्तः अधुना व्यापकत्वम् इति अपि तस्यापि अर्थद्वयम् अस्ति एकः अर्थः वयं जानीमः अधिकदेशवृत्तित्वम् इत्युक्ते पृथिवी त्वम् अपेक्षया द्रव्यत्वम् इति व्यापकम् अस्ति अधिकम् अस्ति अधिकदेशे द्रव्यत्वं भवति अतः hmm. द्रव्यत्वे अधिकदेशवृत्तित्वम् अस्ति पृथिवीत्वम् पृथिवित्वे न्यूनदेशवृत्ति वृत्तिः अस्ति यदि वयं द्रव्यम् अपि च पृथिवित्वम् इति कम्पेरिज़न् कुर्मः चेत् hmm. परन्तु व्यापकत्व द्वितीयः अर्थः अपि अस्ति एतत्तु तत् समानाधिकरण अत्यन्ताभाव अप्रतियोगित्वम् तस्य अर्थः अहं न अवगतं तत् समानाधिकरण अत्यन्तभाव अप्रतियोगित्वम् अत्र अग्रे अग्रे आयास्यति अग्रे एव पठतु तदनन्तरमपि न बुद्धं चेत् किञ्चित् वदिष्यामि अस्तु तत्र जाटिल्यम् इति भाति तत् समान अधिकरण अत्यन्त अभाव अप्रतियोगित्वम् इत्युक्ते बहु किमपि उक्तमिति भाति अग्रे पठतु भवतु अस्तु दृष्टान्ते घटे घटत्वं च प्रतियोगिता च इति पश्येम अस्तु घटे घटत्वमपि अस्ति प्रतियोगिता अपि अस्ति द्वयोः अन्यूना अन्यून अनतिरिक्तव्यक्तित्वम् अस्ति हा इति वयं जानीमः यदि यत्र अत्र घटत्वमस्ति तत्र तत्र प्रतियोगिता अस्ति यत्र यत्र प्रतियोगिता अस्ति तत्र तत्र घटत्वम् अस्ति तत्र ए एकस्य अपेक्षया अधिकदेशवृत्तित्वं नास्ति इति नास्ति हा इति इति सरलमस्ति अपरस्य अपेक्षया न्यूनदेशवृत्तित्वम् इति नास्ति हा इत्युक्ते समानम् अस्ति अपि द्वयोः क्षेत्रं समानम् अस्तु अतः अन्यून अनतिरिक्तवृत्तित्वम् अपि च सामानाधिकरणम् अपि अस्ति अस्तु तथापि प्रतियोगितायाः घटत्वस्य च व्याप्यव्यापकभावः अस्ति इति उच्यते अस्तु अत्र अत्र घटं घटत्वमपि प्रतियोगिता द्वयोः मध्ये अन्यून अनतिरिक्तव्यवृत्तित्वम् अपि अपि अस्ति अपि च द्वयोः घट एव वर्तते अतः द्वयोः मध्ये सामान्य सामानाधिकरणम् अपि अस्ति अतः द्वयोः मध्ये व्याप्यव्यापकभावः अस्ति इति वयं वक्तुं शक्नुमः किन्तु अत्र ध्येयं यत् इदं व्याप्यत्वं व्यापकत्वं च न्यूनदेशवृत्तित्वम् अधिकदेशवृत्तित्वम् इति नास्ति इति वयं जानीमः द्वयोः समानः एव एकं तु बृहत् अपि च द्वितीयं तु न्यूनम् इति नास्ति अतः तत्र न्यूनदेशवृत्तित्वमपि नास्ति अधिकदेशवृत्तित्वमपि नास्ति अत्र यत् घटत्वं प्रतियोगितायाः व्याप्यं व्यापकं च उभयम् अपि अस्तु उच्यते यत् घटत्वं प्रतियोगितायाः व्याप्यं व्यापकञ्च इत्यस्य अर्थः प्रतियोगितायाः यः अभावः तद्वत् अवृत्तित्वं घटत्वे अस्तु अस्तु अतः तत् अभाववत् अवृत्तित्वम् इति व्याप्यत्वस्य द्वितीयः अर्थः कथं तर्हि अत्र एतस्मिन् उदाहरणे एतत् उदाहरणे घटत्वम् अपि च प्रतियोगितायाः मध्ये न्यूनदेशवृत्तित्वमपि नास्ति अधिकदेशवृत्तित्वमपि नास्ति अपि च तत्र सामानाधिकरणम् अस्ति अतः यत्र घटत्वं घट घटत्वम् इति इत्यस्य अभावः अस्ति चेत् अस्ति चेत् तत्र प्रतियोगितायाः अपि अभावः भवति Uh, hmm. प्रतियोगितायाः यः या अभावः अस्ति तद्वत् तद्वत् अवृत्तित्वं घटत्वे hmm. अपि अस्ति अपि च विपरीतरीत्या अपि घटत्वे प्रतियोगितावद् वृत्ति अत्यन्ताभाव अप्रतियोगित्वं घटत्वे तत् कथं भवति प्रतियोगितावत् वृत्ति अत्यन्ताभावः अप्रतियोगित्वं घटत्वे नास्ति चिन्ता अग्रे अस्याः एतावत् मनसि भवेत् यत् अत्र घटत्वं प्रतियोगिता द्वयोः मध्ये एकं व्यापकम् अन्यत् व्याप्यम् इति नास्ति इति नास्ति वा अपि तु अनयोः परस्परव्यापकत्वं परस्परव्याप्यत्वम् उभयत्र अस्ति अस्तु अत्र अस्तु मनसि भवेत् पठत्वं प्रतियोगिता द्वयोः मध्ये एकं व्यापकम् अन्यत् व्याप्यम् इति नास्ति इति कथम् अहं चिन्तयामि अत्र उपरि दत्तमस्ति प्रतियोगितायाः व्याप्यं व्यापकञ्च उभयमपि एतत् दत्तमस्ति हा अत्र तदेव किञ्चित् वदिष्यामि अर्थद्वयं वर्तते व्यापकम् इत्युक्ते किम् व्याप्यम् इत्युक्ते किम् इति पदयोः अर्थद्वयं वर्तते इदानीं विंशतिः पर्वताः सन्ति इति चिन्तयतु तेषु पर्वतेषु पञ्च पर्वतेषु एव धूमः अस्ति इति चिन्तयतु तर्हि इदानीं धूमस्य अपेक्षया पर्वतः व्यापकः किमर्थम् इत्युक्ते अधिकदेशवृत्तित्वम् अस्ति पर्वतस्य विंशतिः पर्वताः सन्ति किन्तु पञ्चपर्वतेषु एव धूमः अस्ति इति कृत्वा धूमस्य अपेक्षया पर्वतस्य अधिकदेशवृत्तित्वमस्ति पर्वतस्य अपेक्षया धूमस्य न्यूनदेशवृत्तित्वम् अस्ति इति सामान्य अर्थं व्यापकम् इत्युक्ते अधिकदेशवृत्तित्वमेव व्यापकत्वम् व्याप्यत्वम् इत्युक्ते न्यूनदेशवृत्तित्वमेव व्याप् व्याप्यत्वम् इति सामान्यर्थः किन्तु यत्र समानमस्ति इदानीं घटत्वम् अपि च प्रतियोगिता इति स्वीकुर्मश्चेत् यत्र यत्र घटत्वमस्ति तत्र तत्र प्रतियोगिता अस्ति यत्र यत्र प्रति प्रतियोगिता अस्ति तत्र तत्र घटत्वम् अस्ति एव समानवृत्तित्वम् अस्ति मध्ये तथापि तथापि तयोः मध्ये व्यापक व्याप्यव्यापकभावः अस्ति इति स्वीकुर्वन्ति तदेव अत्र भवता पठितं तथापि प्रतियोगितायाः घटत्वस्य च व्याप्यव्यापकभावः अस्ति इति उच्यते mm -hmm. तर्हि इदानीम् अधिकदेशवृत्तित्वं न्यूनदेशवृत्तित्वं त्यक्त्वा अन्यत् किमपि वक्तव्यं व्याप्यम् इत्युक्ते किं व्यापकम् इत्युक्ते किम् इति द्वितीयलक्षणं दातव्यं भवति हा हा द्वयोः समानः अस्ति अत् अतः वयं कथं ज्ञातुं शक्नुमः किं व्याप्यम् इति च किं व्यापकम् अतः हा। इत्युक्ते तत्र अधिकदेशं न्यूनदेशम् इति स्वीकृत्य वदामश्चेत् अत्र अत्र इत्युक्ते प्रतियोगिताघटत्वयोः मध्ये व्यापकव्याप्यभावः अस्ति एव इति न वक्तुं शक्यते एव तर्हि अन्यत् किमपि वक्तव्यम् अतः एव द्वितीय लक्षणं दत्तं व्याप्यत्वम् इत्युक्ते किं तद् अभाववत् अवृत्तित्वं व्यापकत्वम् इत्युक्ते किं तत् समानाधिकरण अत्यन्त अभाव अप्रतियोगित्वम् इति वाक्यद्वये लक्षणद्वये अधिकदेशं न्यूनदेशम् इति पदानि न दृश्यन्ते किन्तु किञ्चित् जाटिल्यमिव भाति अत्र इतोपि किञ्चित् उक्तमस्ति तत् समानाधिकरण अत्यन्त अभावः प्रतियोगित्वम् इत्युक्ते किं प्रतियो प्रतियोगितावद् वृत्ति अत्यन्त अभावः अप्रतियोगित्वं घटत्वे इति उक्तम् इतोपि स्पष्टतया अग्रे वदिष्यति तर्हि अग्रे पठतु अस्तु द्रव्यत्वं पृथिवीत्वम् इति स्थितौ एकं व्यापकम् अन्यत् व्याप्यम् तत्र व्यापकव्याप्ययोः अर्थः भिन्नः द्रव्यत्वं पृथिवीत्वम् इति स्थितम् यथा भवता उक्तं तत्र द्रव्यत्वम् अधिकदेशवृत्तित्वमस्ति पृथिवीत्वस्य न्यूनदेशवृत्तित्वमस्ति न्यूनदेशवृत्त्व तत्र व्यापकत्वं व्याप्यम् एकं व्यापकं द्रव्यत्वं व्यापकं पृथिवीत्वं व्याप्यम् इति वदति चेत् तत्र भिन्न अर्थः अधिकदेशवृत्तित्वं न्यूनदेशवृत्तित्वम् इति तत्र सङ्गच्छते किन्तु अत्र घटत्वप्रति किन्तु अत्र घटत्वप्रतियोगितयोः स्थितौ परस्परव्यापकत्वं परस्परव्याप्यत्वम् उभयथा एकस्य अधिकदेशः अपरस्य न्यूनदेशः इति किमपि नास्ति तदर्थं द्वयोः अन्यून अनतिरिक्त अस्ति आम् अतः व्याप्यत्वे सति व्यापकत्वम् इत्यनेन एकस्य अधिकदेशः अपरस्य न्यूनदेशः इति अर्थः नास्ति अस्मिन् सन्दर्भे घटप्रतियोगितयोः सन्दर्भे एकस्य अधिकदेशः अन्य आँ, अन्यस्य न्यूनदेशः इति अर्थः नास्ति अत्र अन्यत् किमपि अर्थः अस्ति तद् तदपि अग्रे वदिष्यति अग्रे आम् आम् अधुना आम, गन्धपृथिवित्वयोः उदाहरणं स्वीकुर्मः गन्धः पृथिवित्वव्यापकः अस्तु गन्धः पृथिवित्वव्यापकः कथम् इत्युक्ते पृथिवित्वसमानाधिकरण अत्यन्ताभाव अप्रतियोगी भवति गन्धः अस् पृथिवित्वस्य च समानाधिकरणम् इत्युक्ते पृथिवीत्वा अधिकरणवृत्ति पृथिवीत्वा अधिकरणवृत्ति खण्डशः पश्येम पृथिवीत्वस्य अधिकरणं पृथिवी तद्वृत्तिः पृथिवित्व अधिकरणवृत्तिः यः अत्यन्ताभावः नाम पृथिव्यां विद्यमानः यकोपि कोऽपि अत्यन्ताभावः अस्माभिः स्वीकर्तव्यः पृथिव्यां विद्यमानः अत्यन्ताभावः इत्यनेन गन्धभावं स्वीकर्तुं न शक्नुमः तदरि तदतिरिच्य किमपि स्वीकर्तव्यं तर्हि शीतस्पर्शाभावं स्वीकुर्मः अत्र पृथिवीत्व अधिकरणवृत्तिः अत्यन्ताभावः इत्यनेन शीतस्पर्शः अत्यन्ताभावः भवतु तद् तदप्रतियोगित्वम् इत्युक्ते हा तद् अप्रतियोगित्वम् इत्युक्ते शीतस्पर्शात्यन्ताभावस्य अप्रतियोगित्वं तच्च गन्धे अस्ति यतोहि शीतस्पर्शात्यन्ताभावस्य प्रतियोगी भवति शीतस्पर्शः न तु गन्धः अतः गन्धः शीतस्पर्शान् शीतस्पर्शात्यन्ताभावस्य अप्रतियोगी भवति अस्तु तर्हि गन्धे पृथिवीत्व अधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगित्वम् अस्ति अस्तु पृथिवी पृथिव्यां गन्धः अपि च शीतस्पर्शः अपि गुणः भवति इति स्वीकुर्मः चेत् तत्र पुनः वदतु पृथिव्यां गन्धः अस्ति शीतस्पर्शः अस्ति व्या पृथिव्यां नास्ति किल नास्ति नास्ति यस्मिन् पृथिव्यां गन्धः अस्ति तस्मिन्नेव पृथिव्यां शीतस्पर्शस्य अभावः अपि अस्ति इदानीं शीतस्पर्शस्य अभावः शीतस्पर्श अभावस्य प्रतियोगी किम् शीतस्पर्श अभावस्य प्रतियोगी जलं न न शीतस्पर्श अभावस्य घटस्य घट अभावस्य प्रतियोगी किं घटः एव किल घटः एव हा तर्हि शीतस्पर्श अभावस्य प्रतियोगी किम् शीतस्पर्शः एव शीतस्पर्शः एव इदानीं शीतस्पर्शत्वं गन्धे अस्ति वा नास्ति तर्हि शीतस्पर्शस्य अप्रतियोगित्वं गन्धे अस्ति किल शीतस्पर्श शीतस्पर्शस्य अप्रतियोगित्वं हा शीतस्पर्शस्य प्रतियोगित्वं शीतस्पर्शे एव अस्ति आम् आम् तर्हि शीतस्पर्शस्य अप्रतियोगित्वम् अन्यत्र सर्वत्र विद्यते गन्धे अपि आमां गन्धे अपि आम् तदेव अत्र उक्तं गन्धे पृथिवीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वम् अस्ति mm -hmm. इदानीं पृथिवीत्वं कुत्र विद्यते गन्धे पृथिवीत्वं कुत्र विद्यते पृथिव्यां पृथिव्यां पृथिव्यां यत्किमपि अत्यन्त अभावः स्वीकरणीयः गन्धं विहाय इदानीं शीतस्पर्शः इति स्वीकुर्मश्चेत् शीतस्पर्शस्य अत्यन्त अभावः तस्य वृत्तित्वम् इत्युक्ते पृथिव्यां शीतस्पर्शीतस्पर्शस्य अत्यन्त अभावः अस्ति हा तर्हि शीतस्पर्शस्य अत्यन्त अभावः यस्मिन् अधिकरणे विद्यते तस्मिन्नेव अधिकरणते पृथिव्यां गन्धः गन्धः अपि विद्यते किन्तु गन्धे शीतस्पर्शस्य अत्यन्त अभाव अप्रतियोगित्वम् अस्ति एव प्रतियोगित्वं नास्ति अप्रतियोगित्वम् अस्ति तर्हि तदेव तादृशधर्मः एव व्यापकत्वम् इति वदामः इदानीं तत्र अधिकदेशवृत्तित्वम् गन्धे पृथिवीत्व अधिकरणवृत्ति अत्यन्त अभावः अप्रतियोगित्वम् अस्ति तदेव गन्धस्य व्यापकत्वं पृथिव्यां भवति प्रयोजनं किम् इति चेत् गन्धस्य अत्यन्त अभावः यदा कदापि पृथिव्यां न भवति इति बोधः जायते अस्तु अस्तु अधिकदेशवृत्तित्वं इति इत्यस्मिन् स्थाने न्यूनदेशवृत्तित्वं नास्ति इति वदामः इति तदेव इदानीं सामान्यतया वक्तव्यं चेत् सामान्यतया किं वदिष्यामः व्यापकत्वम् इत्युक्ते अधिकदेशवृत्तित्वम् इति वदामः तस्य भिन्नरीत्या वक्तव्यं चेत् इदानीम् अधिकदेशवृत्तित्वं यत्र नास्ति तत्रापि व्यापकत्वम् अस्ति इति स्वीकरणीयं चेत् न्यूनदेशवृत्तित्वं नास्ति इति वदामश्चेत् पर्याप्तं भवति पूर्वम् अस्माभिः किम् उक्तं व्यापकत्वम् इत्युक्ते अधिकदेशवृत्तित्वम् इति उक्तम् इदानीं वयं किं वदिष्यामः व्यापकत्वम् इत्युक्ते वदामः इति चेत् व्यापकत्वम् इत्युक्ते न्यूनदेशवृत्तित्वस्य अभावः एवमेव व्याप्यत्वम् इत्युक्ते न्यूनदेशवृत्तित्वम् इति सामान्य अर्थः किन्तु इदानीं तस्य अर्थः कः इति चेत् अधिकदेशवृत्तित्वस्य अभावः एव व्याप्यत्वम् अस्तु इति वदामश्चेत् तत्र इदानीम् अधिकदेशं न्यूनदेशम् इति अस्वीकृत्य तेषाम् अभावं स्वीकृत्य वदामः तावदेव mm -hmm. व्यापकत्वम् इत्युक्ते किम् अधिकदेशवृत्तित्वम् इति नास्ति न्यूनदेशवृत्तित्वस्य अभावः इति तदपि वयं वक्तुं शक्नुमः परन्तु तद् तादृशं वदामश्चेत् इदानीं गन्धपृथिव्योः मध्ये परस्परं व्यापकव्याप्यभावः अस्ति इति वक्तुं शक्यते गन्धः यत्र अस्ति तत्र न्यूनदेशवृत्तित्वस्य अभावः पृथिव्यां वर्तते तर्हि अदेव तदेव अन्यून इति उक्तं न्यूनदेश अभावः इत्युक्ते अन्यून अधिकदेशवृत्तित्वस्य अभावः एव अनतिरिक्त इति इत्यनेन उक्तम् अस्तु अन्यून अनति अनतिरिक्तवृत्तित्वम् एव व्याप्यत्वे पति व्यापकत्वम् इत्यस्य अर्थः इति भवति आम् आहत्य पृथिवित्वाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगित्वं गन्धे आनेतव्यम् यतो हि पृथिवित्वव्यापकत्वं गन्धे अस्तु पृथिवित्वाधिकरणवृत्तिः अत्यन्ताभावः इत्यनेन शीतस्पर्शस्य अत्यन्ताभावः स्वीकर्तुं शक्यते स्नेहस्य अत्यन्ताभावः स्वीकर्तुं शक्यते शब्दस्य अत्यन्ताभावः स्वीकर्तुं शक्य शक्यते एवं पृथिव्यां ये ये गुणाः न सन्ति तेषाम् अत्यन्ताभावं स्वीकर्तुं शक्नुमः सम्प्रति शीतस्पर्शस्य अत्यन्ताभावं स्वीकुर्मः तस्य प्रतियोगी शीतस्पर्शः प्रतियोगित्वं च शीतस्पर्शे अप्रतियोगित्वं गन्धे भवति तर्हि अप्रतियोगित्वं कुत्र कुत्र भवति इति चेत् यः गुणः पृथिव्यां भवितुं सर्वथा नाहरति तत्सम्बन्धस्य अत्यन्ताभावस्य अप्रतियोगित्वं गन् गं... अप्रतियोगित्वं गन्धे भवति अतः अनेन गन्धे पृथिवीत्वाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगित्वम् आनीतम् अस्तु अस्तु अधुना वयम् एव चर्चितवन्तः कथं पृथिव पृथिवीत्वम् अधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगित्वम् इति गन्धे अस्ति इति कथं वयं कुर्मः तस्य प्रयोजनं किं तर्हि अत्र न्यूनदेशवृत्तित्वं अपि च अधिकदेशवृत्तित्वम् इति न वक्तुं शक्नुमः किम किमर्थमित्युक्ते तत्र द्वयोः मध्ये एकम् अधिकमपि च अपरस् अपरस्य न्यूनः न्यूनदेशः अस्ति इति किमपि नास्ति अत्र अतः व्यापकं किं व्यापकम् अपि च किं व्याप्य इति यदा वयं वदामः चेत् तत्र किमपि अन्य अपि शब्दाः योजितं तत्रापि अन्येन वक्तव्यम् अन्यरीत्या व्यक् अतः अत्र न्यूनदेशवृत्तित्वस्य अभावः इति व्यापकं अपि च अधिक अधिकदेशवृत्तित्वस्य अभावः इति व्याप्यम् इति अपि वयं वक्तुं शक्नुमः तदेव अत्र पृथिवीत्वं यत् अधिकरणम् अस्ति पृथिव्याम् अस्ति तत्र गन्धः एकः गुणः अस्ति परन्तु अन्य सर्वे गुणाः तत्र नास्ति अतः यदि वयं शीतस्पर्शः अपि च स्नेह स्नेहः अपि च शब्दः इति वयं स्वीकुर्मः चेत् ते सर्वे गुणाः पृथिव्यां नास्ति अतः तेषाम् अत्यन्ताभावः पृथिव्याम् अस्ति अतः तेषां गुणानां कृते गन्धे अप्रतियोगित्वम् अस्ति mm. अत्र अतः गन्धे ते सर्वे गुणाः सम्बन्धस्य अत्यन्तभावस्य अप्रतियोगित्वम् अस्ति तदेव अत्र वयं हानितम् आनेतव्यम् अतः अतः गन्धः इति व्याप्यं कथं भवति कथं वक्तुं शक्नुमः तर्हि गन्धम् इति व्याप्यं किमर्थमित्युक्ते तत् गन्धे यत् गुणाः पृथिव्यां नास्ति तेषां कृते गन्धे अप्रतियोगित्वम् अस्ति इति अन्यरीत्या वयं व्याप्यस्य वर्णनं कर्तुं शक्नुमः hmm. इति तत्र अत्यन्त अभावस्य अप्रतियोगित्वम् इति स्वीकृत्य hmm. वदति वदति आम् आम् आम. इत्युक्ते तत्र गृहे द्वे बालके एव स्तः इति वयं जानीमः इति चिन्तयतु इदानीं भवान् पृच्छति रामः कृष्णः इति द्वे बालके स्तः गृहे तत्तु भवान् जानाति इदानीं रामः अस्ति वा इति पृच्छति भवान् तस्य उत्तरम् अहं वक्तुं शक्यते रामः अस्ति नो रामः नास्ति इति वक्तुं शक्यते किन्तु भिन्नरीत्या अपि मया वक्तुं शक्यते भवान् वदति पृच्छति रामः अस्ति वा किन्तु अहं किं वदामि एकः अस्ति सः श्यामः नास्ति इति तर्हि किं पर्यवसति रामः अस्ति इति रामस्य अस्तित्वं कथम् अहम् उक्तवान् चेत् रामः अस्ति इति साक्षात् उक्तम् न उक्तवान् कि हा किन्तु एक श्यामस्य अभावं स्वीकृत्य मया उक्तम् एकः सः तु श्यामः नास्ति इति वदति चेत् श्यामः अस्ति इति भवान् जानाति एव हा परन्तु एतस्मिन् उदाहरणे भवान् स्वीकुर्मः यत् अहं मम मम मनसि रामः अस्ति अपि च कृष्णः अस्ति गृहे इति मम मनसि ज्ञानम् अस्ति इति वयम् आ भवतः भवान् गृहीत्वा अस्तु सत्यं किन्तु तत्र केवलम् अत्र किमर्थम् अन्यत् किमपि अत्र पश्यतु कथं वा चिन्तनं सोपानेन प्रवर्तितमिति चेत् प्रथमं व्यापकम् इत्युक्ते अधिकदेशवृत्तित्वं तत्र किमपि क्लेशः नास्ति तत्र साक्षात् अवगन्तुं शक्यते इदानीं द्वितीयविध लक्षणमस्ति व्यापकत्वम् इत्युक्ते अन्यून न्यूनवृत्तित्वं नास्ति इत्युक्ते अन्यूनवृत्तित्वम् एव व्यापकत्वम् इति स्वीकृतम् इदानीं तत्र तृतीयसोपानमस्ति यस्मिन् अधिकरणे गन्ध गन्धः अस्ति तस्मिन्नेव अधिकरणे बहूनाम् अत्यन्त अभावः अस्ति येषाम् ये अत्यन्त अभावः अस्ति तेषां प्रतियोगित्वं गन्धे नास्ति चेत् इदानीं गन्धः व्यापकः इति स्वीकर्तुं शक्यते इति अन्यत् किमपि अन्य अन्यस्य अभावम् अन्येषाम् अभावं, अन्ये अभावं स्वीकृत्य तत्र व्यापकत्वम् उक्तमस्ति अत्र तस्य बोधनार्थं मया एतादृश उदाहरणम् उक्तं तावदेव अस्ति वा इति पृष्टे सति नो चेत् तत्र भिन्न उदाहरणम् इतोपि भिन्न उदाहरणम् अहं वदिष्यामि कोऽपि मम गृहम् आगत्य तत्र द्वारे शब्दं कृत्वा कोऽपि अस्ति वा इति पृच्छति अहम् अन्ते स्थित्वा किं कोऽपि नास्ति इति अहं प्रतिवदिष्यामि कोऽपि नास्ति इति अहं यदा प्रति उत्तरं दास्यामि तदा किम् अर्थबोधः भवन्तं जायते इति चेत् अहमस्मि गृहे अहं विहाय अन्यः कोऽपि नास्ति इति तादृशार्थबोधः जायते किल कोऽपि नास्ति इति वदति चेत् भवान् गच्छति वा हाँ, हाँ. या, या न यः कोऽपि नास्ति चेत् तत्र उत्तरमेव न भवति तादृशम् अत्र उक्तं पृथिवीत्व अधिकरणवित्ति अत्यन्त अभाव अप्रतियोगित्वं कुत्र विद्यते विद्यते तर्हि यदा अहम् उत्तरं वदिष्यामि वदामि कोऽपि नास्ति इति तस्मिन् उत्तरे किं तस्मिन किम् किम उक्तम् इति चेत् अन्येषाम् अत्यन्त अभावः अस्ति किन्तु तद् अत्यन्त अभावस्य प्रतियोगित्वं यः वदति तरव... तस्मिन् नास्ति किल सः अपि नास्ति इति नास्ति सः एव वदति तत्र सर्वेषाम् अभावानां द्रष्टा कोऽपि अस्ति तस्मिन् स्वस्य अत्यन्त अभावः नास्ति इति भवति तर्हि तत्र अन्यत् तदेव किञ्चित् जाटिल्यमिव भाति किमर्थम् अत्यन्त अभावं स्वीकृत्य अप्रतियोगित्वं वदति इति चेत् तत्र अन्यूनवृत्तित्वं नास्ति तद् इत्युक्ते न्यूनवृत्तित्वं नास्ति अन्यूनवृत्तित्वमेव अस्ति इति वैयायिकभाषया कथं तत्र व्यवहारे एतादृशं वक्तुं शक्यते अवगन्तुं शक्यते किन्तु तत्र निरूपणं न भवति तर्हि तत्र अत्यन्त अभाव अप्रतियोगित्वं स्वीकृत्य निरूपयति गन्धे पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वं आनीतं तदेव <usur> व्यापकत्वं। इति बोधितम् एवमेव व्याप्यत्वमपि तदभाववत् अवृत्तित्वम् इति आम् अस्तु अग्रे पठतु महोदय एवमेव <usur> अस्तु एवमेव तद् व्याप्यत्वम् अपि वक्तुं शक्यते गन्धः पृथिवित्वव्याप्यः इत्युक्ते पृथिवी त्व अभाववत् अवृत्तित्वम् आनेतव्यम् पृथिवित्वस्य यः अभावः पृथिवीत्व अभावः तद्वत् तद्वान् तद्वती अत्र तद्वत् जलम् पृथिवित्व अभाववत् जलं तद्वृत्तिः इति सप्तमी तत्पुरुषः तस्मिन् अवृत्ति तत् इति जलं जले गन्धः अवृत्तिः यतो हि जले गन्धो नास्ति अतः तद्वृत्तित्वं गन्धे अस्ति पृथिवित्व अभाववत् जलाव जलाववृत्तित्वं गन्धे अस्ति अस्तु अत्र व्याप्यत्वम् इति अपि भिन्नरीत्या वक्तुं शक्नुमः कथम् इति अत्र दत्तमस्ति गन्धः पृथिवीत्वव्याप्यः व्याप् पृथिवि पृथिवीत्वम् इति व्याप्यः अस्ति इत्युक्ते पृथिवीत्व अभाववत् अवृत्तित्वम् इति आनेतव्यम् अत्र गन्धः इति व्याप् गन्धः इति व्याप्य खलु गन्धः अत्र व्याप्यः पूर्वस्मिन् चेत् गन्धः व्यापकः इति निरूपितं गन्धः इति इदानीं गन्धः व्याप्यः पृथिवीत्वव्याप्यः पृथित्वव्याप्यः अस्तु अस्तु पृथिभाव पृथिवित्वस्य यः अभावः पृथिवित्वाभावः तद्वत् तद्वान् तद्वति अत्र पृथिवीत्व अभावः इति पुल्लिङ्गे तद्वान् शिवलिङ्गे तद्वती गन्धः इति हा गन्धः अत्र तद्वत् इत्युक्ते जलं अस्तु पृथिवीत्व अभाववत् जलं यत्र पृथिवी नास्ति तत्र जलं तत्र जले पृथिवीत्वं नास्ति इति वयं जानीमः पृथिवीत्वस्य अभावः जले अस्ति तद्वृत्ति इति सप्तमी तत्पुरुषः अस्ति तस्मिन् अवृत्ति अतः तत् इति जलं परन्तु जले गन्धः अवृत्तिः वयं जानीमः जले गन्धः नास्ति अतः गन् जले गन्धस्य अवृत्तिः अस्ति अतः तद् तत् तत अवृत्तित्वं गन्धे अस्ति इति वयं वक्तुं शक्नुमः अतः पृथिवीत्व अभाववत् इति अपि गन्धमस्ति जल अवृत्तित्वम् इति अपि गन्धः अस्ति वयं वक्तुं शक्नुमः तदेव तर्हि गन्धस्य पृथिवीत्वव्याप् व्याप्यत्वं कथं निरूपितम् इति चेत् यत्र यत्र प्रथीत्वं नास्ति तत्र तत्र गन्धः नास्ति इति वदामश्चेत् इदानीं गन्धः व्याप्यः भवति यत्र यत्र गन्धः अस्ति तत्र तत्र पृथिवीत्वम् अस्ति इति वदामश्चेत् गन्धः व्यापकः भवति यत्र यत्र गन्ध पृथिवीत्वं नास्ति तत्र तत्र गन्धः नास्ति इति वदामश्चेत् गन्धः व्याप्यः भवति एवमेव विपरीतरीत्या अपि वक्तुं शक्यते इदानीं पृथिवी गन्ध पृथिवी गन्ध व्यापकः इति वक्तव्यम् चेत् तत्र यत्र यत्र पृथिवी अस्ति यत्र यत्र पृथिवीत्वम् अस्ति तत्र तत्र गन्धः अस्ति इति वदामश्चेत् इदानीं पृथिवीत्वं गन्धस्य व्यापकः भवति एवमेव पृथिवीत्वं गन्धव्याप्यः इति वदामश्चेत् यत्र यत्र गन्धः नास्ति तत्र तत्र पृथिवीत्वं नास्ति नास्ति नास्ति इति वदामश्चेत् तत्र व्याप्यः भवति एकः अस्ति अस्ति इति वदामश्चेत् व्यापकः भवति एकः हु, समचनम् अस्तु अस्तु <El> अग्रे <Weird Language> महोदय अग्रे आहत्य आग गन्धे पृथिवीत्वा पृथित्वभाववत् अवृत्तित्वम् अस्ति एवं च पृथिवीत्व अधिकरणवृत्ति अप्रतियोगित्वमपि अस्ति गन्धे अतः गन्धे पृथिवित्वव्याप्यत्वम् अपि अस्ति पृथिवीत्वव्यापकत्वमपि अस्ति एवं पृथिवीत्वे गन्धव्याप्यत्वमपि अस्ति गन्धव्यापकत्वमपि अस्ति अनेन व्याप्यत्वे सति व्यापकत्वम् mm. अग्रे अधुना एव वयं दृष्टवन्तः गन्धे yeah. यत्र गन्धः अस्ति तत्र तत्र पृथिवी अपि अस्ति यत्र यत्र गन्धः नास्ति तत्र तत्र पृथिवी अपि नास्ति अपि च विपरीतरीत्या अपि तदेव वयं वक्तुं शक्नुमः अतः गन्धे पृथिवित्व अभाववत् यत् अवृत्तित्वम् अस्ति तत् गन्धे अस्ति अपि च पृथ्वीत्व अधिकरणवृत्ति इति वयम् अत्यन्ताभावः इति वयं दृष्टवन्तः सर्वे अन्य सर्वे गुणाः पृथ् पृथ्व्यां पृथिव्यां नास्ति तेषां कृते यत् अप्रतियोगित्वमस्ति तदपि गन्धे अस्ति अतः गन्धः इति पृथिवीत्वव्याप्यत्वमपि भवति पृथिवीत्वव्यापकत्वमपि भवति अपि च विपरीतरीत्यापि पृथिवी पृथिवीत्वम् इति अपि इति गन्धव्याप्यत्वं भवति अपि च गन्धव्यापकत्वम् अपि भवति अतः तत्र व्यापके सति व्यापकत्वम् इति एकस्मिन् द्रष्टुं शक्यते अस्तु स्वामिपादः भवान् भवान् किमपि वक्तुमिच्छति वा पुनः पुनः वदति वा पृथिवीत्व अभाववत् अवृत्तित्वम् इत्यस्मिन् विषये महोदय चिन्तित्वं करोति वा पृथिवीत्व अभाववत् अवृत्तित्वम् <laughs> पृथिवीत्व अभाववत् अवृत्तित्वम् इत्युक्ते किम् इति किञ्चित् वदति वा महोदय तत्र प्रथमतया वृत्तित्वम् इत्युक्ते आधेयत भवति आधेयत आधेयत महोदय वदति वा गन्धे पृथिवीत्व अभाववत् अवृत्तित्वम् इत्युक्ते किम् इति किञ्चित् प्रतिपादयति वा वक्तुं न शक्नोमि महोदय इदानीं महोदय भवान् तदेव उक्तवान् अवृत्तित्वम् इत्युक्ते आधेयता अस्ति खलु तर्हि गन्धः इति आधेयं न भवति यदि पृथिवीत्वम् अभावः अस्ति तत्र पृथिवीत्वस्य अभावः अस्ति चेत् गन्धः आधीयं न भवति इत्युक्ते पृथिवी नास्ति चेत् गन्धः न भवति विपरीत विपरीतरीत्यापि तत् वयं वक्तुं शक्नुमः मिहुल् महोदय क्षम्यतां मिहुल् महोदय भवान् किं करोतु गन्धे पृथिवीत्व अभाववत् अवृत्तित्वम् इदानीं पृथ्वीत्व अभाववत् इति इति किञ्चित् विश्लेषणं करोतु तस्य पृथ्वीत्व अभाववत् किं पृथिवित्व अभाववत् इति अहं चिन्तयामि पृथ्वीत्वम् इति एकः धर्मः तस्य अभावः अस्ति यत् यत्र यत्र पृथिवीत्वं नास्ति तत्र तत्र पृथ्वीत्वस्य अभावः पृथ्वीत्व तस... अभावः तर्हि पृथिवीत्व अभाववत् इत्युक्ते कः यत् यः कोऽपि वस्तु अपि च किमपि पदार्थः तस्मिन् पृथिवीत्वं नास्ति तत् तत् वयं वक्तुं शक्नुमः तस्मिन् पदार्थे पृथिवीत्व अभावः अभाव तत् पदार्थः पृथिवीत्व अभाववत् अस्ति उत्तमं पृथ्वीत्वस्य अभावः पृथ्वीत्व अभावः पृथ्वीत्वस्य अभावः यस्मिन् वर्तते तत् पृथ्वीत्व अभाववत् मतु प्रत्य उपयुज्य अहं तर्हि पृथ्वीत्व अभावं कुत्र वर्तते इदानीं जले वर्तते तर्हि पृथ्वीत्व अभाववत् इत्युक्ते जलं जलं जलम् आम् आम् जले गन्धस्य वृत्तित्वम् अस्ति वा नास्ति नास्ति तर्हि गन्धे जलस्य जले अवृत्तित्वमेव गन्धे अस्ति आम् आम् जल गन्धेत्वम् तदेव आम् आम् जलः एव जल पृथिवीत्वा जलमपि च पृथि पृथिवीत्व अभाववत् इति समानशब्दः समान अर्थे अतः जले गन्धः नास्ति जले गन्धः नास्ति अतः इत्युक्ते जले जले गन्धः नास्ति इत्युक्ते गन्धस्य अवृत्तित्वमस्ति हा जले गन्धस्य अभावः एव अस्ति तर्हि गन्धे तत्र जले गन्धस्य अभावः एव अस्ति तर्हि जले तत्र गन्धे जले अवृत्तित्वम् अस्ति इति आपतति एवमेव स्वामिपादः भवान् अवगच्छति किल पृथिवी तु अभाववत् अवृत्तित्वं गन्धे क्षम्यता महोदय म्यूट् मध्ये अस्मि हा। पूर्णतया नास्मि महोदय किमिति न महोदय पूर्त पूर्णतया न अवगच्छं महोदय <Sess> no, अत्र अत्र पृथिवीत्वं पृथिवीत्वम् इति जानाति लिख पृथ्वीत्वं कुत्र लभ्यते किञ्चित् चर्चां कुर्मः पृथिवीत्वं कुत्र लभ्यते पृथि पृथिव्यो पृथिव्यौ वर्तते पृथिव्यां हा महोदय अस्तु अभावः कुत्र अन्यद्रव्यैः केपि सन्ति तस्मिन् उदाहरणं वदतु जलम् इति स्वीकुर्मः वा जलम् आं महोदय हा तर्हि जलं पृथ्वीत्वा अभाववत् वत् इति किमर्थमिति चेत् नपुंसकलिङ्गं वायुः पृथ्वीत्वा अभाववान् इति वदामः किल आं महोदय तर्हि पृथ्वीत्व अभाववत् इत्युक्ते जलं तस्मिन् जले गन्धः अस्ति न महोदय तस्य लक्षणं नास्ति हा तर्हि जले गन्धः नास्ति इति कृत्वा गन्धे इदानीं वृत्तित्वम् नास्ति वृत्तित्वम् इत्युक्ते जले गन्धः नास्ति किल नास्ति एव गन्धः वर्तते तर्हि पृथिव्याम् एव गन्धस्य गन्धः आदेयः भूत्वा वदति भवति जले गन्धे तत्र अवृत्तित्वमेव अस्ति गन्धे तर्हि पृथ्वीत्व अभाववत् वृत् इत्युक्ते यस्मिन् द्रव्ये पृथ्वीत्वस्य अभावः अस्ति उदाहरणार्थं जले जले कस्ले गंध नास्ध वृत्ति नास्वृत्ति कुत गंधे वर्त कस्वृत्ति पृथ्वी अभावती जले अवृत्तिव गंधे वर्तते तदे अर्थ महोदय अन्तिमवाक्यद्वयं पुनरेकवारं वदतु महोदय हा पृथिवीत्व अभावः जले वर्तते तर्हि जलं पृथिवीत्वा अभाववत् तस्मिन् जले गन्धः नास्ति तर्हि जले गन्धः अवृत्तिः जले गन्धः अवृत्तिः तर्हि गन्धे अवृत्तित्वम् अस्ति कुत्र पृथ्वीत्व अभाववत् अवृत्तित्वं गन्दे अस्ति पृथ्वीत्व पृथ्वीत्व अभाव अभाववत् इत्युक्ते जले जल अवृत्तित्वं गन्धे अस्ति महोदय जलवृत्तित्वम् अच्च पृथिवी अवृत्तित्वम् क्षम्यताम् पृथिवीवृत्तित्वं गन्धे अस्ति जल अवृत्तित्वं गन्धे अस्ति तदेव अर्थं महोदय अत्र जल अवृत्तित्वम् इति जल स्थाने पृथ्वीत्व अभाववत् इति उक्तं तावदेव महोदय हा एवमेव तत्र पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वम् इत्यत्रापि एत एतद् एत एवं एव अर्थं वक्तव्यं महुर् महोदय वदतु पुनः पृथिवीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वम् आम् आम् पृथ्वीत्व पृथिवीत्व इत्यस्य अधिकरणम् इत्युक्ते पृथिवी एव खलु अत्र तस्य तस्मिन् इत्युक्ते पृथिव्यां गन्धः एव एकः गुणः अस्ति तत्र शीतस्पर्शः अपि च स्नेहः अपि च शब्दः इति सर्वे गुणाः न सन्ति अतः ते ते गुणाः अत्यन्त ते तेषां गुणानाम् अत्यन्तभावः पृथिव्याम् अस्ति अत्र पृथिव्यां ये गुणाः न सन्ति तस्मिन् कृते अप्रतियोगित्वम् अप्रतियोगित्वम् इति गन्धे अस्ति किमर्थमित्युक्ते hmm. गन्धे पृथिव्यां केवलं गुणः एव अस्ति अतः अन्य गुणानां कृते गन्धे अप्रतियोगित्वमस्ति अतः वयं वक्तुं शक्नुमः पृथिवीत्व अधिकरणवृत्ति तस्य पृथिवी पृथिव्यां ये गुणाः न सन्ति ते सर्वे ते yes, ना, ना, त्रुण त्रुण त्रुण ते तेषां कृते अत्यन्ताभावः अस्ति तद् अत्यन्ताभावस्य अप्रतियोगित्वं कुत्र अस्ति यत् यत्किमपि गुणः पृथिव्याम् अस्ति तेष् तस्मिन्नेव तत् अप्रतियोगित्वम् अस्ति अतः गन्धे तद् अप्रतियोगित्वम् अस्ति अतः पूर्णरूपरीत्या पृथिवीत्व अधिकरणवृत्ति अत्यन्ताभावः अप्रतियोगित्वं दन्धे अस्ति इति वयं वक्तुं शक्नुमः hmm. उत्तमम् पृथिवीत्वस्य अधिकरणं पृथिवी hmm. वृत्ति इत्युक्ते अस्ति इति स्वीकरोतु अर्थः वृत्ति इत्युक्ते अस्ति यस्मिन् अधिकरणे पृथिवीत्वं वर्तते तस्मिन्नेव अधिकरणे बहुनाम विद्यते mm -hmm. तेशाम अभावा वर्तते बहूना अत्य अभा प्रतिगिवे नंधे तह ग अभाव अप्रतिवते तदेव व्यापक तर्हि व्याप्यत्वम् इत्यस्य अन्यद् लक्षणमस्ति तद् अभाववत् अवृत्तित्वं व्यापकस्य अन्यत् लक्षणमस्ति तद् अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वम् इति तदेव पूर्वम् उक्तमस्ति अस्तु लिखित्वा पश्यतु अग्रे अग्रे मैं रूप सेव्याप्यवृत्ति व्याप्यवृत्तिप्त अव्याप्यवृत्तित व्याप्यवृत्ति मतेम व्याप्यवृत्ति पुस्तक एक संख्या अपरस्तेम्यवृत्ति वृक्षे कंग है इव य मते वृत्ति व्याप्यवृत्ति व्याप्यवृत्ति तैः चित्ररूपमिति नूतनं सप्तमं रूपं स्वीक्रिय स्वीक्रियते येषां मते रूपम् अव्याप्यवृत्ति तैः एकस्मिन् द्रव्ये श्वेतरूपं रक्तरूपं च बहूनि रूपाणि स्वीकर्तुं शक्यन्ते अत्र वयम् एतत् मया उक्तमेव तर्हि अग्रे गच्छ अस्तु प्रश्नः रूपं समवायसम्बन्धेन पटे किन्तु कपिः संयोगसम्बन्धेन वृक्षे अतः रूपस्य अव्याप्यवृत्तित्वसाधनार्थं यः दृष्टान्तः दीयते तस्मिन् प्रकृतिदृष्टान्तयोः साम्यम् अस्ति किम् उत्तरम् अत्र कपेः उदाहरणे संयोगरूपगुणः स्वीकृतः न तु कपिः संयोगरूपगुणश्च समवायसम्बन्धेन वृक्षे अग्रदेशावच्छेदेन च मूलदेशावच्छेदेन तु कपिसंयोगः नास्ति मूलदेशे अन्यसंयोगः स्यात् वायुः इत्यादिसंयोगः स्यात् किन्तु कपि संयोगः नास्ति तर्हि समवायसम्बन्धेन चेदपि संयोगः एकस्मिन् अधिकरणे कुत्रचित् भवति कुत्रचित् न भवति अस्तु अत्र वयं दृष्टवन्तः प्राचीनानां मतानुसारं रूपमिति व्याप्यवृत्तिः परन्तु नवीननैयाकरणा नैयाकरणः इति आम् आम् आम् क्षम्य क्षम्यताम् रूपं व्याप्यवृत्ति इति प्राचीनानां मतानुसारं परन्तु नवीननैयायिकानां मतानुसारं रूपमिति अव्याप्यवृत्तिगुणः तर्हि अत्र प्रश्नः अस्ति पटे रूपमिति समवायसम्बन्धेन भवति परन्तु वृक्षे कपिः इति संयोगसम्बन्धेन वर्तते अतः रूपस्य अव्याप्यवृत्तित्व इति यदि वयम् अव्याप्यवृत्ति इति वयं, वयं वदामः चेत् तस्य साधनार्थं यत् दृष्टान्तः दीयते तस्मिन् प्रकृतिदृष्टान्तयोः साम्यम् अस्ति किम् अत्र प्रकृति इति किं महोदय प्रकृतिदृष्टान्तयोः प्रकृति इत्युक्ते इदानीं यद् यस्मिन् विषये अस्माकं चर्चा भवति इत्युक्ते दृष्टान्त अपि च दार्ष्टान्तयोः मध्ये साम्यं भवेत् अस्तु अस्तु दृष्टान्तम् स्वीकृत्य वयं साधयामः इदानीं सः किं पृच्छति तस्य प्रश्नः कः इति दृष्टान्ते संयोगसम्बन्धः एव द्रव्ययोः मध्ये कपि वृक्षयोः मध्ये संयोगसम्बन्धः अस्ति संयोगः इति स्वीकृ तत् इति स्वीकृत्य इदानीं दाष्टान्ते गुणगुणिनोः मध्ये समवायसम्बन्धः अस्ति तर्हि साम्यं नास्ति दृष्टान्तदाष्टान्तयोः मध्ये साम्यं नास्ति इति आपादनं करोति अस्तु अस्तु दृष्टान्तसमीचीनं नास्ति इति अत्र चर्चा हा समीचीनदृष्टान्तं भवता न दत्तम् आम् किमर्थं तर्हि तत्र कपेः उदाहरणे संयोगरूपगुणः स्वीकृतः न तु कपिः अत्र कपेः उदाहरणे संयोगरूपगुणः इति कपेः इत्युक्ते किम् अत्र पश्यतु उत्तरम् इदानीं प्रश्नम् अवगतं किल दृष्टान्तयोः मध्ये साम्यं नास्ति इति आपादनम् तस्य उत्तरं वदति सिद्धान्ती भोः अहं कपिः अपि च वृक्षयोः मध्ये दृष्टान्तं न उक्तं कपिसंयोगः इति गुणः अस्ति किल कपि संयोगः इति गुणः वृक्षे केन सम्बन्धेन भवति संयोगः इति गुणः अधिकरणे केन सम्बन्धेन भवति समवायसम्बन्धेन भवति किल गुणगुणिनोः मध्ये समवायसम्बन्धः एव वर्तते भवान् विपरीतरीत्या अवगतवान् अहं कपिः अपि च वृक्षयोः मध्ये यः सम संयोगः अस्ति तस्मिन् विषये न उक्तं वृक्षे कपि संयोगः वर्तते तर्हि सहयोगः इति गुणः गुणः गुणिनी समवायसम्बन्धेन वर्तते तर्हि इदानीं संयोगः इति गुणः अज्ञाप्यवृत्तिः एवमेव रूपमपि अज्ञाप्यवृत्तिः अभ्या। इति मया उक्तम् अस्तु अस्तु तर्हि साम्यं वर्तते एव इति तस्य प्रश्नस्य उत्तरं ददाति हा सम संयोगरूपगुणश्च समवायसम्बन्धेन वृक्षे अग्रदेशावच्छेदेन च अस्तु अस्तु मूलदेश कपेः उदाहरणे संयोगरूपगुणः स्वीकृतः न तु कपिः कपिः कपिवृक्षयोः मध्ये सम्बन्धः न स्वीकृतः कपि संयोगः इति गुणः अपि च गुणि वृक्षः अनयोः मध्ये सम्बन्धः यदस्ति तदेव मया स्वीकृतः इति उत्तरम् उक्तम् अस्तु हु, अग्रे महोदय महोदय गुणगुणिनोः मध्ये समवायः अस्ति अतः साम्यमस्ति इति हा सत्यम् तर्हि साम्यं वर्तते इदानीमहं कपिवृक्षयोः मध्ये सम्बन्धः दृष्टान्तत्वेन न स्वीकृतं तत्र कपि संयोगः इति गुणः यदस्ति अपिच, सह सः गुणः अपि च यस्मिन् गुणिनि विद्यते वृक्षः तयोः मध्ये एव सम्बन्धः मया उक्तः इति वदति महोदय प्रकृति इति पारिभाषिक नैयायिकपारिभाषिकं वा दृष्टा नास्ति नास्ति प्रकृतिः इत्युक्ते यस्मिन् विषये अस्माकं चर्चा भवति प्रकृति प्रकृतविषयः अस्ति किल तदेव प्रकृति तर्हि अन्तिमवाक्यं तत्र अस्ति तर्हि समवायसम्बन्धेन चेत् अपि संयोगः एकस्मिन् अधिकरणे कुत्रचित् भवति कुत्रचित् न भवति तस्य तत्र एतत् वाक्यस्य अर्थः कः इत्युक्ते समवाये संयोग संयोगरूपगुणः इति स्वीकुर्मः चेत् अपि तत्तु एकस्मिन् अधिकरणे कदा कुत्रचित् भवति कुत्रचित् न भवति इति अस्ति खलु तर्हि सा, साम्यम् अस्ति वा तत्र न न तदेव इदानीम् अत्र आपादनं किं गुणः गुणिनि समवायसम्बन्धेन वर्तते आम् तर्हि यत्र यत्र तत्र प्राचीनाः किं वदन्ति यत्र यत्र, यत्र, यत्र समवायसम्बन्धेन वर्तते तत्र व्याप्यवृत्तित्वमेव अस्ति इति ते आशयः अस्ति किन्तु तस्य निराकरणं सिद्धान्ति नव्यनैयायिकाः कथं कुर्वन्ति इति चेत् संयोगः इति अपि गुणः किन्तु भवता एव अङ्गीकृतं संयोगः समवायसम्बन्धेन यस्मिन् द्रव्ये वर्तते तत्तु अद्याप्यवृत्तिः एव अस्तु अस्तु तर्हि यदा संयोगः इति गुणः अव्याप्यवृत्तिः इति भवता अङ्गीकृतं तादृशं रूपम् इति गुणः अपि अद्याप्यवृत्तिः इति अङ्गीकरोतु अत्र कः क्लेशः इति पृच्छति हा अस्तु अस्तु हा तदेव मम पृच्छन्ति अस्तु अग्रे महोदय अग्रे प्राचीनानां मतानुसारं रूपं किन्तु तथा नास्ति एकत्र श्वेतरूपम् अन्यत्र रक्तरूपम् इति चेत् एकत्र विद्यमानं श्वेतरूपम् अन्यत्र रक्तरूपम् अनेन श्वेतरूपम् एकस्मिन्नधिकरणे कुत्रचित् भवति कुत्रचित् न भवति इति अव्याप्यवृत्तिः जाता प्राचीनाः वदन्ति यत् तथा न भवति यतोहि रूपं व्याप्यवृत्तिः गुणः समाधानं चित्ररूपम् एकस्मिन् पटे सर्वत्र एकैव रूपं न श्वेतरूपं नापि रक्तरूपं चित्ररूपं तस्मिन् पटे सर्वत्रापि वर्तते अनेन अव्याप्यवृत्तित्वं न भवति आ आ तदेव वयं पुनः तदेव आ... उक्तमस्ति अत्र नूतनं किमपि नास्ति प्राचीनानां मतान् तेषां सिद्धान्तः कः इति चेत् रूपं व्याप्यवृत्तिः इति ते निश्चितवन्तः निश्चित भवतु संयोगः अव्याप्यवृत्तिः इति भवतु अव्याप्यवृत्तिः गुणः इति भवतु किन्तु अस्माकं hmm -hmm. मतानुसारं रूपं व्याप्यवृत्तिः एव एकस्मिन् द्रव्ये यत्र कुत्रापि रूपं विना न भवति किल तर्हि रूपं व्याप्यवृत्तिः रूप... एव इति अस्माकं मतं तद् बोधनार्थं चित्ररूपम् इति नूतनं आ... रूपं तत्र उत्पद्यते तर्हि व्याप्यवृत्तिः एव इति प्राचीनाः वदन्ति नव्याया किं वदन्ति अग्रे पठतु महोदय नव्यानां मतानुसारं पटस्य प्रसङ्गे रूपस्य अवच्छेदकं पीततन्तुः रक्ततन्तुः नीलतन्तुः यथा कपिसंयोगस्य अवच्छेदकम् अग्रदेशः अतः पटे चित्ररूपं मास्तु अवयवरूपं तत्र भासते एव नानातन्तवः सन्ति तन्तवः च भिन्नभिन्नवर्णयुक्ताः अनेन तन्तुभ्यः भिन्नं पटे पृथक् रूपं नोपप नोपद्यते तन्तुषु विद्यमानं रूपमेव पटे भासते अस्तु अत्र प्राचीनानां मतानुसारम् अव्याप्यवृत्तित्वं न भवति रूपम् इति अव्याप्यवृत्ति तर्हि नव्यानां मतानुसारम् अत्र उदाहरणं पश्यामः चेत् पटस्य उदाहरणं पश्यामः चेत् तत्र रूपस्य अवच्छेदकत्वम् अवच्छेदकं इति भिन्नभिन्नवर्णा वर्णयुक्ततन्तवः पीततन्तुः अपि अस्ति रक्ततन्तुः अपि अस्ति नीलतन्तुः अपि अस्ति यथा वयं दृष्टवन्तः कपिसंयोगस्य अवच्छेदकं किं तर्हि अग्रदेशः अग्रभागः वृक्षस्य अग्रभागः इति कपिसंयोगस्य अवच्छेदकं भवति अतः पटे ते वदति चित्ररूपं न स्वीकरोतु स्वीकरोतु तत्रापि अवयवरूपं भासते इत्युक्ते भिन्नभिन्नवर्णयुक्ताः तन्तवः सन्ति अनेन तन्तुभ्यः भिन्नं पटे पृथक् रूपं न उपद्यते न वा अपेक्षते तन्तुषु यत् रूपमस्ति तदेव पटे अपि भवति अतः तन्तुभ्यः भिन्नं पटे पृथक् रूपं न अपेक्षते यत् यत् तन्तुभ्यः यत् वर्णः सन्ति तदेव पटे सन्ति तत्र चित्ररूपमिति नवीन वर्णः पटे नास्ति इति नव्याना मता हा अत्र इदानीं पश्यतु चित्ररूपं पटे अस्ति इति इति सन्दर्भस्य न्यायशैल्या निरूपणीयं चेत् कथं वदिष्यामः चित्ररूपनिष्ठ आधेयता निरूपितपटनिष्ठ अधिकरणता अधिकरणम् अधिकरणता निरूपणीयं चेत् चित्ररूपनिष्ठ अधेयता निरूपितपटनिष्ठ अधिकरणता इति वदामः किन्तु इदानीं प्राचीनानां मतानुसारं तत्र संयोगः निरूपणीयः तत्र वृक्षे विद्यमान अधिकरणता निरूपणीयः इति चेत् प्राचीनाः अपि किं वदन्ति कपिसय्यवरिष्ठ आधेयता निरूपित अग्रावृक्षदृष्ट अधिकरणता इति वदन्ति किन्तु प्राचीनाः किं वदन्ति तादृशं रूपस्य विषये नव्यायाः नव्याः न वदितुं न न वक्तुं किमर्थम् इत्युक्ते इदानीं रक्तनिष्ठ रक्तवर्णनिष्ठ अधीयतानिरूपित पटनिष्ठ अधिकरणता इति वदति चेत् रक्तवर्णं पटे सर्वत्र नास्ति किल तर्हि तादृशं न वक्तुं शक्यते इति प्राचीनाः वदन्ति रक्तनिष्ठ अधीयतानिरूपित पटनिष्ठ अधिकरणता इति वदति चेत् रक्तवर्णं पटे सर्वत्र वर्तते इति भवति किन्तु तादृशं नास्ति तत्र यत्र संयोगः वर्तते तत्र अग्रम् इति अवच्छेदकत्वेन स्वीकृत्य वक्तुं शक्यते अत्र किमपि उपायः नास्ति इति प्राचीनाः वदन्ति तस्य उत्तरं नव्याः किं तदन्ति इति चेत् नव्यानां मतानुसारं पटस्य प्रसङ्गे रूपस्य अवच्छेदकं पीततन्तुः तर्हि नव्यायाः किं वदन्ति इति चेत् रूपनिष्ठ अत्र किं वदन्ति रूपनिष्ठ आधेयता निरूपित रक्तवर्ण अवच्छिन्न पटनिष्ठ अधिकरणता इति वदन्ति रूपं तु आदेयः एव किन्तु सः आदेयः केन अवच्छिन्ना इति चेत् रक्तवर्णेन अवच्छिन्ना भवति अधिकरणता इदानीं तर्हि रूपनिष्ठ आधीयता निरूपितरक्तावच् रक्तवर्ण अवच्छिन्न वृक्षनिष्ठ अधिकरणता इति ते वदन्ति पटनिष्ठः पटनिष्ठ क्षम्यतां पटनिष्ठ अधिकरणता इति ते वदन्ति तादृशं वक्तुं शक्यते अत्र क्लेशः एव नास्ति तर्हि रूपम् अव्याप्यवृत्तिः इति स्वीकुर्मश्चेत् रूपम् अव्याप्यवृत्ति इति स्वीकुर्मश्चेत् तत्र किमपि क्लेशः नास्ति इति न वदन्ति अस्तु hmm. तस्य इदानीं पुनः प्राचीनाः किं वदन्ति अग्रे वदतु अस्तु प्राचीनः किम् उत्तरं वदति चक्षुरिन्द्रिय चक्षुरिन्द्रियप्रत्यक्षं प्रति रूपं कारणं रूपं नास्ति चेत् तस्य द्रव्यस्य चाक्षुषप्रत्यक्षं न भवति अत्र कार्यकारणभावः प्रयुक्तः इति यदि पटे रूपं नास्ति तन्तुषु एव रूपं वर्तते इति यदि वदन्ति तर्हि पटे समवायसम्बन्धेन रूपं नास्ति इति उक्तौ पटस्य प्रत्यक्षमेव न अतः चित्ररूपम् अङ्गीकर्तव्यम् अनेन तन्तुषु रूपं भवति तदा भिन्नभिन्नतन्तूनां संयोगात् पटे चित्ररूपम् उत्पन्नं भिन्नभिन्नवर्णयुक्ततन्तूनां संयोगात् पटे चित्ररूपम् उत्पन्नं तथा च पटे रूपमस्ति समवायसम्बन्धेन अनेन पटस्य प्रत्यक्षं भवति अस्तु तर्हि अत्र प्राचीनाः उत्तरं ददाति रूपस्य कारणं किम् इत्युक्ते चक्षुविन्द्रियप्रत्यक्षम् इति एव कारणं चक्षुविन्द्रियेण एव वयं रूपस्य ज्ञानं कर्तुं शक्नुमः तर्हि रूपं नास्ति चेत् तस्य द्रव्यस्य वयं न द्रष्टुं शक्नुमः द्रव्यस्य ज्ञानं चक्षुषा एव भवति अपि च रूपमस्ति चेदेव वयं चक्षुषा ज्णा द्रव्यस्य ज्ञानं कर्तुं शक्नुमः अतः तत्र कार्यकारणभावः इति आगच्छति यत् अत्र तदेव अग्रे अग्रे, अग्रे अपि वदति यदि पटे रूपं नास्ति इति नव्यानां मतानुसारं पटस्य रूपं नास्ति परन्तु रूपस्य अवच्छेदकं पीततन्तुः अपि च अन्य सर्वे भिन्नभिन्नवर्णयुक्ताः तन्तवः भवति चेत् यदि पटस्य रूपं नास्ति इति वदामः चेत् अपि रूपं न तन्तुषु अपि रूपं वर्तते इति वद न वक्तुं शक्नुमः तदा तर... ना, ना, तत् ता, ता, नास्ति महोदय तन्तुषु रूपं नास्ति इति चिन्तनं नास्ति अत्र यदि रूपं यदि पटे रूपं नास्ति तन्तुषु एव रूपं वर्तते इति यदि पटे पटे रूपं नास्ति परन्तु तन्तुषु एव रूपम् अस्ति इति वदामः चेत् पटे समवायसम्बन्धेन रूपं नास्ति इति उक्तौ इत्युक्ते समवायसम्बन्धेन पटे रूपं नास्ति तत् तर्हि तर, तर वयं पटस्य ज्ञानं कथं कर्तुं शक्नुमः तस्य दर्शनमेव न भवति प्रत्यक्षमेव न भवति अतः अतः अतः पटस्य प्रत्यक्षं कर्तुम् इच्छामः चेत् चित्ररूपम् इति स्वीकुर्मः स्वीकुर्मः तत् अत्र अन्यकोपि उपायः नास्ति अन्यकोपि उपायः नास्ति इति प्राचीनाः वदन्ति तत्र वायोः हो चक्षुषा ग्रहणं न भवति किमर्थम् इत्युक्ते वायौ रूपं नास्ति तर्हि इदानीं पटे अपि पटे रूपमेव नास्ति केवलं तन्तुषु एव रूपं वर्तते पटे रूपमेव नास्ति इति वदन्ति चेत् पटस्य दर्शनं कथं भवति केवलं तन्त तन्तवः दर्शनमेव भवति तन्तवः एव चक्षुषा गृह्यते पटः तर्हि अतः एव वयं वा वदामः तत्र चित्ररूपं पटे उत्पन्नमस्ति तर्हि इदानीं पटः प्रत्यक्षयोग्यं भवति चक्षुषा ग्रहीतुं शक्यते अतः अस्माकं पक्षमेव समीचीनम् इति प्राचीनाः वदन्ति अग्रिमपरिचयनं महोदय अस्तु किन्तु नव्यानाम् अनेन न कोऽपि दोषः साक्षिषं प्रति रूपं कारणं नव्यानां मते श्वेतुरूपमपि अस्ति नीलरूपमपि अस्ति बहूनि रूपाणि सन्ति पटे तत्तदव तत् तत् तत्तदवयवैः तत्तद् रूपम् उत्पद्यते पटे इति स्वीक्रियते चेदपि पटे रूपं सिद्ध्यति यथा कपिसंयोगः वृक्षस्य अग्रभावे सत्यपि सम्पूर्णवृक्षे अपि वर्तते तथैव रक्तवर्णयुक्ततन्तुभिः पटे रक्तरूपं जायते एवमेव श्वेतरूपयक्तावयवैः पटे श्वेतरूपं जायते अत्र समवायसम्बन्धेन न केवलं रूपमस्ति अपि तु रूपाणि सन्ति अत्र मुख्यमस्ति यत् प्राचीनाः रूपस्य व्याप्यवृत्तित्वं मनसि कृत्वा चित्ररूपम् नव्यैः तु यथा संयोगस्य अव्याप्यवृत्तित्वं भवति तथा रूपस्य अपि अव्याप्यवृत्तित्वं भवतु न क न कोऽपि हानिः न कापि हानिः इति चित्ररूपम् अन अनङ्गीकृत्य भिन्नभिन्नरूपाणि भवन्ति इति अङ्गीकृतवन्तः अनेन ना नूतनचित्ररूपं नापेक्षितम् इति पर्यवर्तितम् mm. अत्र नव्यानां मतः अपि स्वीकुर्मः चेत् तत्रापि कोऽपि दोषः न भवति किमर्थम् इत्युक्ते रूपमिति चक्षु चाक्षुं प्रति कारणम् इति वयं जानीमः परन्तु नव्यानां तत्र श्वेतरूपमपि अस्ति नीनरूपमपि अस्ति अपि च बहूनि रूपाणि पटे सन्ति तत् तत, तत अवयवैः तत्तद् तत रूपम् उत्पद्यते पटे तत् अवयवाः सर्वे भिन्नभिन्नरूपाणि भवन्ति तदेव पटे आगच्छति चेत् पटे एकं नूतनरूपम् अपि सिद्ध्यति यथा न पटे नूतनरूपं सिद्ध्यति इति नास्ति नूतनरूपं सिद्ध्यति इति प्राचीनानां मतं नव्यायाः किं वदन्ति भोः पटे रूपं, ना ना, रूपं नास्ति इति मया किं कथम् उक्तं कदा उक्तं तदा यदा कदापि मया पटे बहूनि रूपाणि सन्ति तन्तुषु ये रूपाणि भवन्ति ते एव रूपाणि कार्ये पटे अपि भवन्ति इति मया उक्तं तर्हि पटस्य दर्शने का क्षतिः किमपि नास्ति किल इति ते सर्वे हा सर्वे मिलित्वा पटे अपि रूपं सिद्ध्यति एकं वा बहवः वा, वा इदानीं तत्र मिलित्वा एकमेव रूपमिति ते वदन्ति बह बहु बहूनि रूपाणि सन्ति रूपाणि सन्ति चेत् द्रव्यस्य दर्शनयोग्यता भवति एकमेव रूपं भवति इति मा वदतु तावदेव एकमेव रूपम् अस्ति इति प्राचीनानां मतम् द्रव्यानां मतं तु अनेकानि रूपाणि सन्ति पटे तर्हि रूपे रु, पटे रूपमस्ति इति कृत्वा पटं प्रत्यक्षयोग्यं भवति तर्हि तत्र दर्शनस्य किमपि क्लेशः नास्ति अत्र यथा कपिसंयोगः वृक्षस्य अद्यभागे अग्रभागे सति अपि सम्पूर्णवृक्षे अपि वर्तते कपिसंयोगः सम्पूर्णवृक्षे अपि वर्तते तथैव रक्तवर्णयुक्तसन्तुभिः पटे रक्तरूपं जायते हा रक्तवर्णः पटे आगच्छति श्वेतरूपमपि पटे आगच्छति किम किमर्थमित्युक्ते तत्र अवयवैः तद्रूपं रूपाणि सन्ति तदेव पटे अपि आगच्छति समवायसम्बन्धिं न केवलं रूपमस्ति अपि रूपाणि सन्ति तत्र भिन्नभिन्नरूपाणि पटे सन्ति अतः मुख्यं किमस्ति इत्युक्ते प्राचीनानां मतानुसारं रूपस्य व्याप्यवृत्तित्वं मनसि कृत्वा ते चित्ररूपमिति अङ्गीकृतवन्तः परन्तु नव्यैः संयोगस्य अव्याप्यवृत्तित्वं भवति इति ते आ, ते वदन्ति तथा रूपस्य अपि अव्याप्यवृत्तित्वं भवतु इति ते वदति ते तदपि स्वीकुर्मः चेत् न कोपि हानिः अतः चित्ररूपम् हा, अनङ्गीकृत्य यदि भिन्नभिन्नरूपाणि तत्र पटे सन्ति इति अपि अङ्गीकृतवन्तः चेदपि कोऽपि हानिः न भवति इति अन्तिममुख्यं मुख्यभेदः प्राचीन च नैय नव्ययः मदे मध्ये भवति इत्युक्ते आहत्य मतद्वयमपि समीचीनमेव प्राचीनानां मतानुसारं नूतनवर्णम् उत्पद्यते चित्ररूपमिति नूतनवर्णम् उत्पद्यते तर्हि चित्ररूपम् एकमेव वर्णं तर्हि व्याप्यवृत्तित्वं तस्मिन् अस्ति इति स्वीकरोति चेदपि क्लेशः नास्ति नूतनरूपं किमपि न उत्पद्यते ये ये यानि रूपाणि तन्तुषु वर्तन्ते ते एव तानि एव रूपाणि पटे अपि आगच्छति तर्हि बहूनि रूपाणि पटे वर्तन्ते तेन तत्र प्रत्यक्ष प्रत्यक्षयोग्यत्वं वर्तते अपि च इति स्वीकर्तव्यम् इति स्वीकुर्मश्चेदपि क्लेशः नास्ति इति अत्र उक्तमस्ति अस्तु समयः जातः अत्र स्थगयामः अग्रिमसप्तेहे सप्तेहे मेलिष्यामः नमस्कारः सर्वेषां धन्यवादः